अथ सर्गः उक्तवाक्ये मनो तस्मिन् नुभौ राघवलक्ष्मणौ प्रतिनन्द्यकथाम् वीरावूचतुर्मुनिपुङ्गवम् धर्मयुक्तमिदम् ब्रह्मम् कथितम् परमम् त्वया दुहितुः शैलराजस्य ज्येष्ठाया वक्तुमर्हसि विस्तरम् विस्तरज्योऽसि दिव्यमानुषसम्भवम् त्रीन्पथो हेतुनाकेन प्रावयेल्लोकपावनी कथम् गंगा त्रिपथगा विश्रुता सरिदुत्तमा त्रिषु लोकेषु धर्मज्ञकर्मः समन्विता तथा ब्रुवति काकुत्स्थे विश्वामित्रस्तपो धनः निखिलेन कथाम् सर्वामृषिमध्येऽ न्यवेदयत् पुरारापकृतो द्वाहश्यति कण्ठो महातपाः दृष्ट्वा च भगवान् देवीम् मैथुनायोपचक्रमे तस्य सङ्क्रीडमानस्य महादेवस्य धीमतः श्रितिकण्ठस्य देवस्य दिव्यम् वर्षशतम् गतम् न चापि तनयो राम तस्यामासीत्परन्तप सर्वे देवाः समुद्युक्ताः पितामहपुरोगमाः यदिहोत्पद्यते भूतम् कस्तत्प्रतिसहिष्यति अभिगम्य सुराे प्रणिपतम महादेव दहादेव सीतेरता सुरा प्रणिपतेन प्रसाद कर्मसी न लोका धारयिष्यव तेज सुमा ब्राह्मेण तपसा युक्त दह तपचराक्यम तेजस्तेजसी धारया रक्ष सर्वानिमान् नालोकं कर्तुमर्हसि देवतानाम् वचः श्रुत्वा सर्वलोकमहेश्वरः बाढमित्यब्रवीत् सर्वान् पुनश्चेदमुवाचः धारयिष्याम्यहम् तेजस्तेजसैव सहो मया त्रिदशाः पृथिवी चैव निर्वाणमधिगच्छतु यदिदम् स्थानान् मम तेजोह्यनुत्तमम् धारयिष्यति कस्तन्मे ब्रुवन्तु सुरसत्तमाः एवमुक्तास्ततो देवाः प्रत्योचर्वृषभध्वजम् यत्तेजः क्षभितम् ह्यद्यतद्धराधारयिष्यति एवमुक्तः सुरपतिः प्रममोच महाबलः तेजसा पृथिवीयेन व्याप्ता सगिरिकानना ततो देवाः पुनरिदमूचुश्चापि हुताशनम् आविशत्वम् महातेजो रौद्रम् वायुसमन्वितः तदग्निना पुनर्व्याप्तं सञ्जातम् श्वेतपर्वतम् दिव्यम् श्रवणम् चैव पावकादित्यसन्निभम् यत्र जातो महातेजाः कार्तिकेयोग्निसम्भवः अथो माम् च शिवम् चैव सर्षिगणास्तथा पूजयामासुरत्यर्थम् सुप्रीतमनसस्तदा अथ शैलसुता रामत्रिदशा निदमब्रवीत् समन्युरशपत्सर्वान् क्रोधसंरक्तलोचना यस्मान्निवारिता चाहम् सङ्गता पुत्रकाम्यया अपत्यम् श्रेषु दारेषु नोत्पादयितुमर्हथा अद्य प्रभृति एवमुक्त्वा सुरान् सर्वान् अवनेनैकरूपा त्वम् बहुभार्या भविष्यसि न च पुत्रकृताम् प्रीतिम् सुदुर्मेधो मम पुत्रमनिच्छति तान् सर्वान् पीडितान् दृष्ट्वा सुरान् सुरपतिस्तदा गमनायोपचक्रामदिशम् वरुणपालिताम् स गत्वा तप पा आतिष्ठत्पार्श्वे तस्योत्तरे गिरेः हिमवत्प्रभवे शृङ्गे सह देव्या महेश्वरः एष ते विस्तरो रामशैलपुत्र्या निवेदितः गङ्गायाः प्रभवम् चैव शृणु मे सह लक्ष्मण इत्यार्षे आदिकाव्ये बालकाण्डे षट्त्रिंशः